कुस्तुम्बुरुः पिशाचश्च विशालकः वराहकर्णस्तां फलकक्षः फलोदकः हंसचूडशिखावर्तो हेमनेत्रो विभीषणः पुष्पानः वृक्षवास्य निकेतश्च चिरवासश्च भारत एते चान्ये च बहवो यक्षाशतसहस्रशः सदा भगवती लक्ष्मीस्तत्रैव नलकूबरः अहं च बहुशस्तस्याम् भवन्त्यन्ये ब्रह्मर्षयो भवन्त्यत्र तथा देवर्षयो परे क्रव्यादाश्च तथैवान्ये गन्धर्वाश्च महाबलाः उपासते महात्मानं तस्यां धनदमीश्वरम् भगवान् भूतसङ्घैश्च व्रतशतसहस्रशः उमापतिः पशुपतिः शूलभृद्भगनेत्रः त्र्यम्बको राजशार्दूलादेवी च विगतक्लमा वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्महारवैः नानाप्रहरणैरुग्रैर्वातैरिव महाजवैः व्रतः सखायमन्वास्ते सदैव धनदं नृपा प्रहृष्टा शतशश्चान्ये बहुशः सपरिच्छदाः गन्धर्वाणां च पतयो विश्वावसुर्हहाहुः पर्वतश्चैव शैलूषश्च तथा परः चित्रसेनश्च गीतज्ञस्तथा चित्ररथोऽपि एते चान्ये च गन्धर्वा धनेश्वरमुपासते विद्याधराधिपश्चैव चक्रधर्म उपचर तम धनानाना प्रभु आसते चापी राजो भगदत्गम दुम किंपुरशेष उपास्ते धनदेश्वरं। राक्षसधिपति महेन्द्रो गन सहय्सै सह सर्वर्चर